नारायणीयं दशकं सिक्स्टि फोर् मल्टिपल् मीटर्स् आलोक्यशैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः विश्वेश्वरन्त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् गर्गोदिदो निर्गदिदो निजाय वर्गाय तादेन तव प्रभावः पूर्वाधिकस्त्वय्यनु राग एषा मयिधिष्ठतावद् बहुमानभारः तदोव मानोदिदतत्वबोधसुराधि सह दिव्यगव्या उपेत्यतुष्ठाव स नष्टगर्वस्पृष्ट्वा पदाब्जं मणिमौलिना ते स्नेहस्नुतैस्त्वा सुरभिः पयोभिर्गोविन्दनामाङ्गितमभ्यषिञ्च ऐरावदोपाहृद दिव्यगङ्गापाधोऽभिरिन्द्रोऽपि जादहर्षः जगत्त्रयेषे त्वयि गोकुलेशे तथाभिषिक्दे सदि गोपवाटः न केऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवदः प्रभावाद कदाचिदन्तर्यमुनं प्रभादे स्नायन्पिदा पिदा नीतस्तमानेदुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्यता तम् उपागतस्तत्क्षणमात्मगेहम् पिता वदत्तच्चरिदम् निजेभ्यः हरिं विनिश्चित्य भवत्पदालोकन बद्धतृष्णान् निरीक्ष्य विष्णो परमं पदं तद्दुराप मन्यैस्त्वमदी दृशस्तान् स्फुरत्परानन्तरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ चिरं निमग्ना खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते करबदरवदेवं देवकुत्रावतारे निजपदमनवाप्यम् दर्शिदम्भक्तिभाजाम् तदिह पशुपरूपी त्वं हि साक्षात् परात्मा पवनपुरनिवासिन् पाहि मामामयेभ्यः सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द